मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं तर्टि नहुषचरितं श्रीगणेशाय नमः मुद्गल उवाच आयुषस्तनया दक्षपञ्चासन् दृढविक्रमाः स्वर्भानुतनयायां वैप्रभायां तेजसायुताः न हुषप्रथमस्तेषां शक्रतुल्यपराक्रमः चकारशतयज्ञांश्च राज्ञः सर्वान् विजित्ययः तत्रेन्द्रः क्षुभिदोऽत्यन्तम् निराकर्तुम् शशाकन राजानम् सर्व शास्त्रज्ञम् तदशो बभूवः गौतमेन शापितस्त्री प्रदर्शणाद् भ्रष्टराज्यो भवद्देवस्तदो देवा भयातुराः दैत्यानां वेगमुग्रं ते सहनेन क्षमास्ततः बृहस्पतिं समागम्य पप्रचुक्षेमकारकम् तेनाज्ञाप्तास्तदो देवामुनयश्च प्रजापदे न हुशं स्वर्गजं राजं तं चक्रुस्तेजस्विनां वरम् देवेन्द्रो न हुशो भूत्वा शशासस्वर्गमण्डलम् इन्द्रासने समासी नः पालयामासदान् सुरान् तस्मै वरं ददौ देवामुनयश्चे प्रजापदे क्रोधेन यस्त्वया दृश्यसप्ताहीनो भवेत् तदो सदा तदोदितेजसायुक्तो बभूव स नराधिपः देवादिभि सदा दक्ष सेवितो नहुष किल तदोदिगर्वितो राजा भव स्त्री सङ्गलालसः शचीं निर्लज्ज आह्वयामास दुर्मदिः देवानुवाचा सा देवी नाहं यामि नराधिपम् इन्द्रस्य देवमुख्यस्य पत्न्यहं पुरुषं परं यवमुक्त्वा ततो देवाञ्जयौ गेहं बृहस्पतेः ननामतं महाभागा स्नुषां रक्षेदि साब्रवीद तस्या वृत्तान्तमुग्रं सश्रुत्वा देवगुरुस्वयं निकडेतां समास्ताप्य इन्द्रार्थं ह्युद्यदोऽभवद भवद। सहसा गत्य तमुवाच महामुनिं शापहीनं महेन्द्रं त्वं कुरुष्व वचनाच मे तमुवाच महायोगी गौधमः करोम्यहम् उपायं वदमेताद तं करिष्ये जवादहम् गौतमाय ततस्तेन कथितं सुखदं परं विनायकस्य मन्त्रं त्वं देहीन्द्राय महामुने गौतमेन तदत्तस्वमन्त्रो गणपस्य च इन्द्राय स ततस्तेन भवच्चक्रश्च नीरुजः जजापमन्द्रराजं तं शक्रो गणपतेस्ततः ध्यात्वा तं देवदेवेशं तताप तप उत्तमं विदर्भे नर्जने देवो वने वा युवश नः स्वयं न साग्रन्यस्तदृष्टिः स पूजयामास विघ्नपं गर्षसहस्रे वैतं ययौ भक्तवत्सलहा गणेशानोवर दादुं तपस्सा तोषितो भृशं सिंहूठो महाबाचुजराजि सिद्धिबुद्धियुत नाशेषर प्रभु इंद्रं सबोधयास वरम ब्रूहि हृदी मकवस्ते प्रसन्नों दाया तपस्ना ततस्तं प्रणनामाथ तुष्टाव सुस्तिरो भूत्वा यथा मदि गजाननम् इन्द्र उवाच नमस्तेऽस्तु गणाध्यक्ष भक्तेभ्य सिद्धिदायक विनायकाय देवाय हे रम्भाय नमो नमः अनादये च सर्वेषामादिभूताय ते नमः आदिपूज्याय विघ्नेश सर्वपूज्याय वै नमः आदिमध्यान्तहीनाय स्यादिमध्यमयाय च अन्त्यरूपाय देवेश विघ्नहर्त्रे नमो नमः पाशाङ्कुशधरायैव सिंहवाहाय ते नमः अमेयाय नमस्तुभ्यं नानामायाधराय च विघ्नकर्त्रे ह्यभक्तानां सदा स्वानन्दवासिने सिद्धिबुद्धिपदे तुभ्यं नाभिशेषायते ते नमः ब्रह्मणे ब्रह्मरूपाय ब्रह्मदात्रे कृपालवे धर्मार्थकाममोक्षाणां दात्रे ते नमो नमः पूर्णाय पूर्णभावज्ञपूर्णानन्दप्रदाय वै कर्त्रे भर्त्रे च पात्रे गणेशाय नमो नमः सूक्ष्मेषु सूक्ष्मरूपाय स्थूलेषु स्थूलभोगिने स्थूल लम्बोदर लंबोदर ते किं स्तौ मित्त्वां सदा शान्तिरूपं तस्मान्नमो नमः तेन तुष्टो भवस्वामिन स्वामिन् दयाकाराय ते नमः मुद्गल उवाच एवं स्तुतिं समाकर्ण्यमखवन्दमुवाचः गणेशो भक्त्रिभावेन सन्तुष्टो भक्तमुत्तमम् गणेश उवाच इन्द्रत्वया कृतं स्तोत्रं भुक्तिमुक्तिप्रदं भवेद यः पठेच्छृणुयाच्छेद्यस्तस्मै सर्वार्धतं तथा नित्यं त्वमपि देवेन्द्रपठस्तोत्रं प्रयत्नदः तेन विघ्नविहीनस्तु भविष्यसि महामदे वरान् ब्रूहि महाभाग ये ते चित्ते भवन्ति वै तान् दास्यामि न सन्देहो स्तोत्रेण तोषितः तदस्थम् अखवा देवं प्रणम्याभि दधे वचः निर्विघ्नं कुरु मां देवस्वपदस्थं तदा प्रभो भक्तिं त्वदीयपादे मे देहिनाथ नमोऽस्तु ते इदं क्षेत्रं सुविख्यादं गाणपत्यं तदा कुरु तीर्थं च सर्वदं स्वामिन् कुरुदे पादलाञ्छितं स्वानन्ददायगं स्नानमात्रेणात्र न संशयः पुरे कदम्ब नाम्न्येव गणेशं चिन्तितार्थदं लोके भवतु विख्यातं प्रसादात्ते च विघ्नप तथेदि तामुवाचाथ गणेशोऽन्तर्दधे ततः इन्द्रेण गणनाथस्य मूर्तिः संस्थापिता द्विजैः तं पूजयित्वा देवेन्द्रः संस्थितस्तत्र मानद नित्यं ध्यानपरो भूत्वा भजस्तं गणनायकम् अधुना प्रचेष्ठितं गणेशेन तदा राजा विघ्नयुक्तक्रुधः खलः बृहस्पतिमुवाचाधमृद इन्द्रो न संशयः न दृश्यते जनै कुत्र शचीमे मे भोगुरो भो गुरो ततस्तं वा पतिर्देवो वदत्क्रोधसमन्वितः द्विजवाहनगो भूत्वा शचीं याहि नराधिप नाना सा सादेवी देवेन्द्रेण प्रलालिता अपूर्वं वाहनं चैवेच्छति तस्मात् तथा गुरु तथेति मदयुक्त स चकारनखुशस्ततः विमानवाहान् सङ्गृह्य दुरात्मा ब्राह्मणान् बलाद तदो दुःखं द्विजानं स ज्ञात्वा त्रे यः समाययौ दुर्वासास्तं प्रगृह्यैव वाहकं स चकारः तदतिवेगभावार्थं सर्पध्वं ब्राह्मणानृपः उवाच शिबिकायां स संस्थितो मोहसंयुधः दुर्वासा ददौ शापं सुदारुणं सर्पो भव महादुष्ट पदभूमौ नृपाधमा तदस्तं प्रणनामाध गतगर्वो महीपदिः उच्छापं वद मे ब्रह्मन् दयया त्वं दयानिधे धिङ्मां ब्राह्मणभावेषु विपरीतं प्रवर्धिनम् मोहेन मोहिदम् पूर्णं तारयस्व महामुने तदस्तापसमयोक्तं न कुशं मुनिसत्तमः दुर्वासा प्रत्युवाचेदं वचनं दययायुधः दुर्वासा उवाच तव वंशे महाराज धर्मसाक्षाद्भविष्यति युधिष्ठिरस्तदा तस्य दर्शनं ते भविष्यति तेन सङ्कथितं ज्ञानं ज्ञात्वा शापविवर्जितः भविष्यसि संदेहो सन्देहोऽधुना गच्छ महीतलं द्विजा पूज्या सदा राजन्नृपैर्नान्ये कदाचन त्वयाव मानिदा विप्रा वाककास्ते कृदा बलाद् तेनादिधर्मलोपो वैजादस्तेनात्र संशयः पुनर्धर्मं निरीक्ष्य त्वं धर्मयुक्तो भविष्यसि एवमुक्त्वा सदुर्वासा गदस्वेच्छापरायणः न हुशसर्परूपो भूत्पपाद धरणीतले तद इन्द्रं समानीय सामरश्च बृहस्पतिः इन्द्रासने समास्ताप्यमुदितः स बभूवः न हुशो वनमध्ये स स्मरन् अहो विघ्नयुधं सर्वं जगत्थावरजङ्गमम् अहं विघ्नेन संयुक्तकृतो विघ्नेशरूपिणा अतस्तं शरणं यामि तेन सर्वं शुभं भवेत् तथ तेनापिजितं तेनापि जितं चित्तं प्रजापदे सर्पदेहगते नैव गणपत्यस्वभावतः ततो बहौ गते काले वनमायाद्युधिष्ठिरः द्रौपद्याभ्रादृभिः सार्धम् द्यूतदोषेण निश्चितं ततो भीमो वने तत्र चचारफलकाम्यया न हुषेण समादृष्टो बद्धो ज्ञात्वा स पाण्डवः स्वदेहेनावृतं भीमं कृत्वा नागस्वरूपधृक् पादयामाः स भूमौतं बलेन बलवान्नपः भीमेन तत्र नाथश्च कृतो मेकसमो महान् तं श्रुत्वा धर्मराजः ययौ भीमं महाबलं। सर्पेण वेष्टिदं भीमं दृष्ट्वा दुःखसमन्वितम् युधिष्ठिरं सतं वाचा नागो महाबलः नाग उवाच अहं न हुशनामादे नृपः पुत्र न संशयः दर्शनार्थं मया चायं भीमः पृच्छामि राजं स्त्वाम् तद्वदस्व यथा तदं तदाभिमं प्रमोक्ष्यामि सर्वज्ञस्त्वं मदोयतः नहुषस्य वच श्रुत्वा हर्षितः स युधिष्ठिरः तमुवाच महाभागं स्ववंशवरभूषणं युधिष्ठिर उवाच वदनागमहाभाग मान्योऽसि महामदे संशयं छेदयिष्यामि प्रसादात्तवमानद नहुष उवाच किं सत्यं किं तथा राजन्ननृतं धर्ममुत्तमं पापं बन्धं च मोक्षं किं योगं ध्यानं वदस्व च किम् कर्म किमकर्मत्वं किं विकर्मस्मृतं भवेद किं ज्ञानं किं तपोमूलं दैवतं किं वदस्व मे किं सारं किमसारं च किं मान्यं च तथा नृप अवमान्यं च सर्वेषं किं वदस्व युधिष्ठिर येदान्वै वद मे वत्स तदा भीमं महामते मोचयिष्यामि वेगेन गमिष्यामि यथेच्छया युधिष्ठिर उवाच सत्यं ब्रह्मजविज्ञेयं जगद्वै ह्यनृतात्मकं धर्मस्वधर्मरूपश्च जानिया राजसत्तमा स्वधर्महीनं रूपं यत्पापं सर्वैः प्रकीर्तितम् अहममात्मको बन्धो मोक्षस्ताभ्याम् विवर्जितः योगश्चित्तस्य रोधो वैध्यानं निर्विषयं मनः कर्म सत्कर्मरूपं विबुधैः सदा ब्रह्मार्पणात्मकं सर्वमकर्मकथितं किल विकर्मपापाचरणं सर्वशास्त्राय प्रकाशितं ज्ञानं ब्रह्माकमित्युक्तं तपोद्वन्द्वसमात्मकं दैवतं सर्वपूज्यं वै गणेशं विद्धिमानद देवस्य भजनं सारं नवधा सततं नृप असारं विषयाणां वै भजनं नवधा स्मृतं मान्यं सङ्कथितं वेदैः पुराणाै स्मृतिभिर्भवेत् वेदाधारविहीनं यदवमान्यं मनीषिभिः सर्वे संहृदि संस्तं वै विद्धि बुद्धिप्रचालकं सर्वं ते कथितं स्वामिन्मोचयस्वानिलात्मजं एतस्मिन्नन्तरे तत्र विमानं सहसागदं गतं दिव्यभोग मायुक्तम् दर्श युधिष्ठिरः मुमोचनहुशो भीमं तम् तदा बन्धनात्प्रभो देहम् त्यक्त्वा विमानस्थो ययौ स्वर्गम् नराधिपः तत्रेन्द्रस्य समीपे सो गणेशमभजन्नित्यं सनृपो नन्यचेतसा स्वर्गान्ते सगदभूपः शुक्लगत्या गजाननं विघ्नहीनस्वभावेन पुण्यश्लोको बभूवः नहुषस्य चरितं ते कथितं पावनाशनं पठेद्वापि तस्मै कामप्रदं भवत् ॐ तत्सदिः श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते नहुषचरितं नाम त्रिंशत्तमोऽध्यायः ॐ